अथ विंशः सर्गः रामचापविसष्टेन शरेणान्तकरेण तम् दृष्ट्वा विनिहतम् भूमौ तारा ताराधिपानना सा समासाद्य भर्तारम् पर्यश्वजतभामिनी इषुणाभिहतम् दृष्ट्वा वालिनम् कुञ्जरोपमम् वानरम् पर्वतेन्द्राभम् शोकसन्तप्तमानसा तारा तरुमिवोन्मूलम् पर्यदेवयतातुरा रणे दारुण विक्रान्त प्रवीर प्लवताम् वरा किमिदानीम् पुरोभागामद्यत्वम् नाभिभाषसे उत्तिष्ठहरिशार्दूलभजस्वशयनोत्तमम् नैवं विधास्ये रतेः भूमौर्वति सत्तमा अतीव खलु वसुधा वसुधाधिपा गतासुरपिताम् गात्रयिर्माम् विहाय विषेवसे व्यक्तमद्यत्वया वीरधर्मतः सम्प्रवर्तता इष्किम् धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता यान्यस्माभिस्त्वया सार्धम् वनेषु मधुगन्धिषु विहृतानि त्वया काले तेषामुपरमः कृतः निरानन्दा निराशाहम् निमग्ना शोकसागरे त्वयि पञ्चत्वमापन्ने महायूथप यूथपे हृदयम् सुस्थितम् दृष्ट्वा निपतितम् भुवि यन्न शोकाभिसन्तप्तम् स्फुटतेऽयसहस्रधा स्वग्रीवस्य त्वया भार्या हृता स च त्वया व्युष्टिः प्राप्तेयम् प्लवगाधिपा निःश्रेयसपरामोहा त्वया विगर्हिता यैषा ब्रुवम् हितम् वाक्यम् वानरेन्द्रहितैषिणी रूपयौवनदृप्तानाम् दक्षिणानाम् च मानदा नूनमप्सरसामार्यचित्तानि प्रमथिष्यसि कालो निःसंशयो नूनम् जीवितान्तकरस्तव बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् अस्थानेवालिनम् हत्वा युध्यमानम् परेण च असन्तप्यजि काकुत्स्थः कृत्वा कर्म सुगर्हितम् वैधव्यम् शोकसन्तापम् कृपणा कृपणा सती अदुःखोपजिता पूर्वम् वर्तयिष्याम्यनाथवत् ललितश्चाङ्गदो वीरः सुकुमारः सुखोचितः वत्स्यते कामवस्थाम् मे पितृव्ये क्रोधमूर्च्छिते कुरुष्वपितरम् पुत्र सुदृष्टम् धर्मवत्सलम् दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति समाश्वासय पुत्रम् त्वम् सन्देशम् सन्दिश समाग्राय प्रवासं मूर्ध्निचैरम् समाघ्राय प्रवासम् प्रस्थितो ह्यसि रामेण हि महत्कर्म कृतम् तस्य सुग्रीवस्य प्रतिश्रवे स कामो भव सुग्रीवरुमान् भुङ्क्ष्वराज्यमनुद्विग्नः शस्तो भ्रातारिपुस्तव किम् मामेवम् प्रलपतीम् प्रियाम् तम् माभिभाषसे इमाः पश्यव भार्यास्ते वानरेश्वर तस्याविलपितं श्रुत्वा वानर्यः सर्वतश्च ताः परिगृह्याङ्गदम् दीना किमङ्गदम् साङ्गत वीरबाहो विहाय यातोऽसि चिरम् प्रवासम् न युक्तमेवम् गुणसन्निकृष्टम् विहाय पुत्रम् प्रिय चारुवेषम् यद्य प्रियम् किञ्चिदसम् प्रधार्य तव दीर्घ बाहो क्षमस्वमेतद्धरिवंशनाथ व्रजामि मूर्ध्ना वीरपादौ तथा तो तारा करुण रुदंती भर्त समी सह वानी यवश्यत प्राएमिंदवर्ण उपोपेशी इशे श्रीमद् रे वाकीए आदि का्ये कि